अथ पञ्चदशोऽध्यायः युधिष्ठिर उवाच वासुदेवमहाबाहो विस्तरेण महामते सौभस्य वधमाचक्ष्वन हि तृप्यामि कथ्यतः वासुदेव उवाच हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृप उपायाद्भरतश्रेष्ठशाल्वो द्वारवतीं पुरीम् अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दना शाल्वो वैहायसं चापि तत्पुरं व्युह्यविष्ठितः तत्र स्थोथमहीपालो योधयामास ताम् पुरीम् अभिसारेण सर्वेण तत्र युद्धमवर्तत पुरी समन्ताद्विहिता सपदाकाशतोरण सचक्रासहुडा चैव सयन्त्रखनका तथा सोपशल्यप्रतोलीका साट्टाटालकगोपुरा स सा चक्रग्रहणी चैव सोल्काला तावपोथिका सोष्ट्रिका भरतश्रेष्ठसभेरीपणवानका सतोमराङ्कुशा राजन् सशतघ्निकलाङ्गला स सा भुषुण्ड्यश्मगुडका सायुधा स सा लोह चर्मवती चापि विधिना लोहचर्मती चापी सूढ़शृि शास्त्र विधिता भरतर्षभरनेगद्धवादि समर्थै प्रतिणे अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः आघोषितं च नगरे न पातव्यासुरेति वै प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः इति कृत्वा प्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः